्यपदधा दिवसवो वेशन्द्रागुं दिवसो नेवावरुन्धेन्द्रागुधिरे देवानां वामं वसवो वाम नसोनवरुन्धये सागुं हरे यज्ञसेन स्थितिं विराञ्चकारेतपोमपारुन्धयते कामपदधातिपसो नेवा वरुन्धे गायत्रे पुरश्चादिपदसादि तेजोवे गायत्रे तेजेवमफोध भवन्ति मोध्यानमेन्द्रियमे जगते भगवधामृक्षप्राणानामुत्सृष्टे प्रभते वृक्षः पङ्के अक्षरपङ्के ऋविदुरोपानिसन्धाकृत्युपद ोपाले पसवः पशवच्छन्दागुं विविषलोपानेव पशोनपरुं मे विषलोकमश्चेदृश्यदेय चैका उपधीयन्ते यौ चैनामेवं वेदालिच्छन्द्रमुपदभाच्यविवारिसङ्गागुं मृतल्मेव भिवैहन्तङ्गाभिश्चिमदेवच्छं वा चलिच्छन्द्रमुपदतावत्थैवैमगुं समानाना उपदधा वै देवता सिश्चैयत्वैल नोपदस्या देवता अत्यात्म्यम् वृञ्जेरनयत्सैल उपदधात्मनैवेन कुम्भैलम् चेनाग्निनाद्यस्यते भोजसा पुरुषस्मावभृत्तम् तद केवलमेवैकाभिरक्ष्यन्त वै देवा सुवर्गम् उपधीयञ्चपद्यमेव गच्छति प्रकाशञ्चित्रमेव भवति मङ्गले चीमेव लोका मङ्गले चा इमे खलु लोकादेव पुरा देव पुरायेन कविदीना किमार्चिञ्चित् प्राणो विस्पज्योविधुपधाञ्चो स्मरत् कुरुते प्राणामेवेता यजमानश्च ेवता वेदेवतास्तु वर्ग्या प्रागेवान् आरभ्यतु वर्गम् वा ृक्षितपदसादिवृत्तिमेवावरुन्धेकजयकतोपदध्यादेकमृजम्मनुपरिहाय पुं द्राजयति तत् पुरोद्वै वृक्षे लोकं रोचय नैव वृत्तिमवैदेवालिमान् लोकान् समयस्तत्संज्ञाने नागं संयालित्वं यत्संज्ञाने पदतात्सु नाम ञ्जाेता संजादिनेर्येपदधामेवेतमज्ञयमुपदथापयश्चेता गोपहिता स्वाग्रिगुहरं चाज्यादित्यैक्यादित्यावालयम्भोजनुगन्ध्यम्भो िन्नत्मा चादित्या एव भोजिङ्गमयं च सौवा एतस्यादित्यामाध्येयाग्निं चित्ता नोचतेजदादित्ये तया उपदधा देवाश्विङ्गादित्यां तथा च यथासौ देवाधागुं रोचत एवमेवैष मनुष्यानागुं रोचदेव चेतद्वाज्ञानप्रियम् ृतं प्रिय नैव परिभाव आत्मन्यपदशात्मन् च पदशादितां स यामायपुरुढत्तनयसोदाने न्यः वन्कनीयागुम् स देवाः सन् भो यागुम् स्वका अपश्यन्ता उपादबलभूयस्तुलभे देव भूयागुम् स्व भवन्त नोदय वस्तुलभे देवामलयम् साक्षते प्राजेन्द्रमलयन् भोद्भागे शमोहयन्मन्तरे क्षतदस्यन्तरे या सुद्वाग्ने लोकेनैकाग्निमवनं च पृथुर्यात् वामेश्च हेमा हे वैतान् च विना पतः आयुश्चायकृतात्यायदेवाच्यज्ञेयस्ते भर्गं वृन्नायश्चा हैतद्वाग्ने प्रियं भ्रामप्रियदेवास्य आत्मविताय चाहव्य पाञ्चलन्यश्चा हैतवाज्ञः पाञ्चलन्याय पञ्चकृते कस्तस्मादेव माहस्तव्या उपद चेतद्वारुतो न प्रियम् धामयतु्यालतो न एव प्रियम् धामारुन्धे भुमेकविकस्सम्वत्सरस्यैव प्रियम् धामोति जापते लक्षस्व यत्तत्प्रापदत्तरस्वभवजदस्वयत्तरस्वश्वरदेवा स्वमेधेनैव प्रत्यलसुरेधवे प्रजापहितुम् सर्वम् करोमेधेन यजगे सर्वदेव भवति सर्वक्ष्यवादे प्रायश्चित् सर्वक्षते सर्वम् वागेतेन पास्मानम् देवा अदन्नपि वागेतेन ब्रह्म सर्वम् परास्मान्तरब्रह्महत्यामे वैतत्प्रजापते लक्षत्वयत्तत्पादस्वत्योत्तरतोपद्यं दि लक्ष्मतान्येनाम् वशूनां वैतकोर्वा स्वेदत्वजैव वैदं यो भवत्ततिष्ठापय जगतः पोमसोमो भवति द श्वस्य मृहत्तश्च विश्रामेणैव पर्यस्य विश्रामस्वाप्यश्वस्तु सर्वत्राय ओ पुराक्रं यत्ताजयन्तो देवाभवन्दयाङ्गतनोपदधान्द्रियं देदिमान आत्मन् भे भवत्यात्मनाभ्या भवति यज्ञो मुपन्नाचक्नुबन्धे काविक्य समोदपच्यन्तामुपादपा यज्ञममारुन्धरेत्य तनोपदशादि यज्ञमेवता सुरियजमानावरुन्धेत्रयत्रिगुं तनोपदशादित्रयत्रिभुं सद्दै देवता देवता देवावरुन्धे सोतात्मानमेवाज्ञुं सदमन्त्यं देवतात्मामुत्यं दश भवति यजेम् न्द्रन्दज्यो युवदधाज्यो च देवास्मिन् दधा एताभिर्वाद्युचितोज्वलिताभिै न उभयोरस्मै लोकयो ज्योरुद्भवज नक्षत्रेधा एतानि वेदिवोज्यो देवगुञ्जितान्येवावरुन्धेता निज्यो देगुंशयन्नक्षत्रालोकाशमेव लोके पुञ्जिगुरुतेऽभिग्यस्य लोकस्या वृक्षास्ते यत्सद्यः पृष्ठा उपदध्यादृष्टेकमपि तद्ध्यातवर्षकः पर्यन्यस्यात सद्यपृष्ठा उपदधादिवृष्ट्या एव सोकम् फलतिवर्षकः पर्जन्या भवति भवत्ता रञ्ज्या प्रदेशे पञ्चा सञ्ज्ञा चेत्तस्मा राजेनानि च प्रदेशेनानि च नक्षत्राण्यावर्तन्ते a yeah. ्या उपदधात् कृत्यै द्वन्द्वमुपदधाति तस्मा द्वन्द्वोधते रवा एषा मध्यमादितिरन्धलक्षणि एषा द्वन्द्वमन्ध्ये कृत्या अम्बत्रम्बास्थितिकृत्या अवगामोपधाय निश्च यो निवाद्यत उवाच दृश्वामित्रो दरिस्थब्रह्मणाैकान्तं वत्सरो वाञ्जनुसं वक्षयस्यैव संवत्सरे कायश्वना भवध्याय देताध्यं देवलासे ताम्रज्य प्रत्यरण्यमध्यभि्यशल्केखयज्ञश्च लोपेनैवैनकं समजयत्यज्यो विदैव सुवर्गम् दाकमेदा हस्त्रवधात्वाक्षरिदाहस्रप्रजापति प्रजापतेनात्या इमामे अर्जयिष्ठका इमामे सन्दिक्षामधेनो देवेणा कुलदेता येन लङ्कामधुका अमुत्रामुष्टिम् दोषमुपतिष्ठन्ते ैतलिभि जाता यथावत्स जातस्तनम् प्रेक्षत्येवं वागधेयं प्रेक्षरि तस्मै यदा हुरन्नज भुयावध्वर्यजमानध्यायुद्धेयं समयति यै च धारण्यानामारण्यान् चलय वा द्वाराजभूयां कवेय माद्वानद्राम्यान् वसोनयक्तिना रण्यासौ वाहुरणाहुतश्च गवेषु काच्य च दक्षेणाहुत्येव जवो्यान् पशोयस्ति नारण्याम गम् लोकन्यम् प्रोजायान् धर्मम् प्राञ्छम् देवमक्षमन्ये जहो दो मित्राय संतिष्ठन्जः तेजाय रुद्रस्य लिप्तायामेव निरवदय ले करमायामिच्छकायाम् जहोत्यन्तः एव रुद्यान्य निरवदयने त्रेधाभक्त्यञ्जः ोकाभिमानेव लोकान् समावजेयान् करोति यत्र उत्तराम् कुर्यात प्रफल्वाच्यान्ताहरुद्र ेन गुङ्मय चेता देवताया उत्तमायां सुभन्दाशङ्कमयधियम् अस्मन्नार्जमिति परिजलि मार्जयत्येव नो धर्तयत्येवत्याहन्नं वायं ज्येच्छायमेव जैष्ठमश्च कृता परिज्यं पर्य ऋद्वाज्ञामानेवाज्ञूतमय ऋपत् पुनः परय ऋषप्रम्पद्यं चेद्वायक्षपां वा एतत्पुष्पं विद्वय ततोपानं ततोपकाव्यशाखयात्रापकाव्यच्च ऋषापोरे शान्ता शान्ता देवाय ऋ ण्डोकेनक्षायत्येकायत्तस्य पुं जनयति पाकवते धरं नैवान्येनैवास्रुं जनयति वृक्ष य लय लमणयुज्यकृष्णाजारे उपानः उपमुञ्चते ब्रह्मणैव मृत्योक्षे ते तरङ्गाद्यादित्याञ्च नमक्षे हरते भोतिरयि च नमस्कृत्य य जैस्त्रिनमस्तकै पावको अस्मभ्यगम् शिवो भवे पावकान्नमेव द्वाभ्यामधिकामधि प्रचिट् का अवसरभेभ्याकुम् सान्धये ्याघारे पञ्चाहुच्यायक्यमुतमानपदेक्षया व्याघारे विवत्पादक्षया भगवान् दायस्तप्रदक्षुर्यादयामास्य महत्कारस्याद्ययाध्यक्षागुन्द्रह्ने भवाक्षमस्य जातयामावणत्कारा भवज्ञगं लक्षागं दृग्भ्यञ्जभुता भगवान् ुकारोऽभयां प्रेणा हिरे देवदेवानामिति दध्यामरुमिश्रेणावाक्षि हुकारस्यैव देवानपुकारस्य यजमानप्रेणा हिरे यजमानं प्रेणन्ति मत्रैव हुकारप्रेणादि मधुरा हुकार ग्राम्यं वा एवध्यारण्यं मुदयद्दध्याम तु मिश्रेणावक्षरक्षुपयत्यावृद्धे यावच्चारपरिवर्णमेना देवादेशे प्रजयावधे वन्दे कावमानलायि चाक् प्राणामेव बालायि च प्रजामेव च पदभोैव प्रजा न्द्र वृत्रमृत्वान् चन भागधैर्येण श्वकर्मणेवयञ्चामयेत शिरम् पाप्म निर्मोच्यते चैकैकन्दस्य लोया शिरमेव परात्मना निर्मोच्यते अयं चामयेत् कार्य पाप्मना निर्मोच्य चर्वानुगस्य मृद्रस्य लोया साधकेव पाप् निर्मोच्यते स्वफलनानेव सोत्रया धा च उदय नोत्तरा नयति समितारोति धाकैफलम् कृत्वायङ्करोत्यौदुम्बरे भवन्तोर्द्वादुम्बरपूर्जनेवादिश्वलम् यस्मात् ेवेन चित्कायोऽध्यक्ष देशे देवेन पञ्चदिशो देवे यज्ञ भवन्तु देवेरित्याहतिपते पामतिं सुन्मतिं बाधमाना त्याह रक्षसामपात्ये रायत्व यज्ञपति माभजं देत्याः पशवो वे रायत्वन्दे हरिदेवैनेवमपहत्यैतो पुरप्रदादित्याः पुदो चैतव पावकादित्याहान्ध देवार्थ प्रजलभमपक्षन्ते मवि प्रजलभश्चात् प्रजलभक्ताञ्जलप्रजलभं धीय प्रत्यं भवति जान्ना ज रिक्षमन्तरिक्षनिवार्ये दत्वा यद्वाभ्यां कृैते रस्मे कृष्णं वेत्सा दत्त्वा दिसम्बाम्बेवा त्याहृत्यमेवत्याहुन्दवाने देवानुमादल करित्या प्रजा ्रह्मणे पाणमग्रन्हाय ब्रह्मणा ध्यादण्यग्रन्हादि देवनप्रतिशम् विद्वानित्याहदेव लोकमेव वर्तते क्रमध्वम्यदानाक्रमित्या हेवानेवतया लोकान् च मयुर्गाहरि क्रमानुभवित्या हेमान एव लोकान् प्रमालो हरितु वर्यं लो नाम हतुवर्यमेवया लोकमेत्यर्घे प्रथमो देवयना नित्याहोभय ेव महर्षे विचक्षुर्दशादि पञ्चभिक्षामधिमान्तो यज्ञावानेव यज्ञस्य कोशादे पुरो प्रजापतिप्रजापधेविद्ध पूर्णापौतुम्बरे प्रयमासन्न ेदभ्यो रुपुतं पुराणय चौरुम्भे माधारे नेतया पुरानागुर्वा छेमानाभ्यायप्रहासंभक्तारं विषयमदेवंस विगुर्वरेंशाञ्चाज्ञां सुहेतागुंस विगुर्वरेत्याहै यु हैपया समितमादधाय समित सप्तजयत्रादित्या सप्तै माध्याप्तानि प्रेणादिकोर्णयाज भवति कोणयि लये प्रजापय प्रजापजय रात्रेण्योनयाय भवतिन्योनाद्य प्रजापय प्रजा सुजया प्रजानागुच्याज्ञस्य निरायतिशोत्वन्धय दत्सापुरस्थाज्ञाज्य नवरिकात्यजश्चैवास्मा इन्द्रियञ्च समेत्य शकवादो वैश्वा न भवति द्वादसमाचाराप्तं वत्प्रतं वत्पराज वेश्वा नस्ताक्षाध्वा नववरुन्धे यत्रया कृप्ता यज्ञश्चिहमन्तराजयज्ञश्चित्यै रायप्रेश्वानराविन्मरुता वै स्वानरगुभ स्वा मारुतां च भवति राय प्रिमनुभद्रां सित्यैरु वैश्वानरस्याष्टुं च मारुतां चिमति वदति मारुताञ्च मरुतो ैवास्मे मनुक्ष विषमवलुम्भे सप्तभवंशे सप्तगणादि मरुतोषमवलुम्भे जनेन जनमद्दृच्छमेवनम् करोति मेशाधारामुं लोके पतिष्ठाज्यं चोकभवर्धारा चैवाच योगु चोकामादेवत्राणां मृत्युञ्जागि विद्रा प्राणानेवान्नाम् कारय ध्यानान्नाद्युं सन्तनि ग्रामे सन्तदानन्तस्य दोरया प्राणामेवन्नाद्यो ऋद्वाद तद्वादने ऋद्वाद समासम् संवत्सरेणैवामवरुन्धे कृच्छ मयित्वा अन्यस्य लोकव्यं लोते ैवामवरुन्धे शिष्टमहापष्टमयित्याहैतावान्नस्तयोन्येवान्यवरुन्धे धेन्द्रानि देवता एवावरुन्धय सर्वे वा स्मादिन्द्रदेवतानां भूयस्प्रभाक्रमलिन्द्रमुत्तरमाहेन्द्रियमेवास्मिन्दु परिष्टाद्रभाज्ञायुधानिहो दे वैदिज्ञायुधानिक्यमेवावरुन्धयतु हेतद्वै यज्ञश्च लोकं रोपेणैव यज्ञमवरुं देववृतश्च मे स्वकालश्च मयिष्यात् स्वकाकृत्या मे धर्मश्च मयिच्या हैतद्वये ब्रह्मवश्चोपगं रोपेणैव ब्रह्मवश्चेशामजमयिच्या हैतद्वै चन्दसागं गोपगं रूपेणैव छन्द्राकृत्यवरुं दैकन्धाश्च मे वत्साक्षमयिश्चा हैसद्वै भोनागं रोप ैव पशो नवरुन्धेक्षे युग् नावकाच मे त्रिश्रमयित्यादेवश्च मनुष्यसं च देवसं धनं चैव मनुष्यसं धरं चावरुन्धायत्रिगोषदा जहादित्रयस्त्रिगोशत्वे देवता देवता देवता रुन्ध आष्टा चत्वारि गुण्रताजः चा चत्वारि गुण्रदत्येव नवरुन्धराजक्षप्रथमश्च विद्वासृञ्जः विद्वासमासाम्वत्तरसंवत्तर एव प्रतिष्ठे नित्यमानस्थं जैवाब्रुवन्सुवनावक्तस्थाव्यं प्रणैव मालक्रमेयं ज्यतिरस्वादग्नयवालक्रमेयं जीरद्वालक्रमेयं जोक्षज्ञमे माघदेव नवत्रयक्षमभिषेकरेवाक्षो जग्राम्याहोदय सत्तारण्या उभयेषामवलुद्ध्या अन्नस्यान्नस्य जुहात्यन्नस्यान्नस्यावरुध्या औलुम्बरेण सुरेण जुहोत्योर्वामुयवोर्जन्नमन्नवरुध्ये देवानामभिलक्त्वा य दुपाभक्ते वाच्य भेवा दुपावक्त्रयशकृष्णायै श्वेनवत्रायै ैव दिशोऽजयत्यग् अमुष्मिन् लोके पातोभिभवदे पातनामायजः मम लोके पात पदः लोकाय लोके वान्धे समुद्रा जलभक्तानि च हैवद्दैवातश्चोतकम् लोके नैव वा तमवलुन्धे जनिना योजयश्चा मन्यताहुजलवकम्पते य मे लोकाय देव रथो युज्यते यत्राक्रोताय मृष्यासगे जकल मे देव रथोभ्यञ्जन जगवदाशतेन केलेन कुन्तरेण यस्त्वहर्षम् लोकमल्यवहरे सर्वाभिः पञ्चभरि युज्य यज्ञाज्ञ प्रदत्सिनयश्च प्रदत्सिदाप्रदत्तिरा यक्षानि बृहत्तारच्छवने ज्ञयानैवाद्यमश्चयुक्ताधि यथ एवमेव सत्याहृदयच्छ यज्ञायज्ञाभ्या महितावाने यज्ञयावानभूमात्वास्यावानेवज्ञमं ततोवान् बाहयद्वाभ्यान् स्याम्बा वेदोक्षकाहुज्रवति वेदाकालुश्रवन्ते यज्ञानपदा भवति पुरास्थितं प्रतिष्ठत्य यत्रैकायत्रेनैव विद्वान् पुनश्चितं भिकथादे पुनराधे एवम् पुनस्कृतरिया ज्ञाधयेन पुनस्कृतिञ्चिवयत् पुनस्कृतिञ्चिज्ञा वर्णजयुद्रो वा यथा वृत्तं बोधयति तादृशैव तत्सल् वा वृत्रे भव्यै श्रियसान्दं वा बोधयति तादृशैव सन्मनुरक्षिमेन पुनस्त्रिजमपक्षप्तामजमदया वैवाद्य पुनस्त्रिपञ्चनदर्ध्यै े च पदुकामेव नेमय सायणेवयःकामयुजेर्धण्ष्टं लाच्यानिर्जेढण्ड्वामेवमष्टल् लाचे भवे दशत्येदम्बष्टा कामश्च ्रौभचिरञ्जन् वे लब्ध्यातुर्यवान् वेदभातुर्यान् मुदकः प्रौदं चन् वे प्रयःकामय भादुर्यान् मृदयप्रति दर्श्यमानादित्रैव जातान् धातु प्रति दर्श्यमानान् विषक्रिरञ्जन् वे लब्ध्यादुर्यवान् वज्रवेदफल वज्रमेव्यारुर्य चप्रक्रहर विद्वादशिरञ्जन् वेतान्यकाम ञ्जन्वेदुमाने भगवत्यञ्जन्मे भगवतिरञ्जिन्मे दयक्षामयेकये सर्वै समतिष्ठत्यैन्द्रियं ेन्द्रियमेव्यं देभो तद्यश्चयमनायधनं द्वादशपदधा जद्वाददाक्षरायत्यैवासो नवरुन्धे अष्टावष्टावण्यायश्चयोपदधाक्षा देवानेव देवान् प्रयन् प्रेयामि यत्य नक्षत्रिमद्भव लक्षद स्वगायस्य योगित्र लक्षभक्षद्वादशप्रभश्च गायस्य यक्षर्वा पदप्रनाय छन्ददाक्षरमश्चम परमस्य रात्वा यज्ञानाम् परमा स्वे नमो ब्रह्मराय गमय विपुंसमहात्मवश्व आलभ्यते द्वादशमाधात् पञ्चकरत्रयिले लोकाधित्य विपुंसेन प्रजाभयप्राया स्वप्तमेव धाक्षा रुद्धिक्वरय पृक्षं भवन्त्यन्यदन्यच्छं भवन्त्येव एन्त्यामुदेवरण्यायक्षक्वरय पृक्षं भवन्त्य स्वप्तभत्राय सुरक्तं ब्रह्म रामं भवज्विमास्तो यदये स्विदपदाम्बरामरङ्गम्बायपा ब्रह्म रामं भवत्य स्वक्षयच्छेतु चेदृङ्गत्य चावाकदामं भवत्युत्तर नयज्ञा वाय रयदस्तमेध्वैरेत्याभुर्यति सर्वो वासवैर्यं गर्चा वाकधामं भवत्य स्व सर्व्याय सर्वम जहास्या के सर्वत्रे सर्वमज्जयति ओ स्थापयति यज्ञक्षसन्तत्याहविश्षेदायेम्ना पशवो युष्कलायम्ना संप्राज्ञारभ्यं जय देवता समवन्त भक्ते नैन्द्रा समभेदेवतामदं ददादि भागवे हियस्त्वज्ञानक्षेतप्रकेदस्मा यत्रियं वायुर्वादित्रियं न गर्दृष्णमेव तद्वेषत्यादुन्माजमानो हियस्त्वभेदमाहत्यायुन्मातायुवायुमती चेतवति भवदत्तते धत्वाय हिरण्यगर्भव्याभारमाभ्याय प्रजापदै हिरण्यगर्भप्रजापतेन लोकराय सर्वाधिकाय लोकाय वधूनां प्रत्यानभ्यते यक्षणस्तत्पुरुषाणां लोकैन्यत्वलक्ष्माङ्गो लभ्यभाङ्गान्त जगानाम् ेव मयत्रालज्य भवत्यक्षायज्ञामयत्राल्य कुर्यात् प्रजापदे याद्यत्राजा मध्यं कुर्यात् प्रागुर्याद्यत्वारक्ष प्रसुभवति नै देयत्राजा मध्यं पुराजा च भवति तेन प्रजापतेन वेष्टेत्यावमेकादजगवानवतिरे शिष्याविज्ञो देवताैव यज्ञं ja jaro devada amso para noya jana ve sabale kaalina samva devada he bo bhayara prig cheja mano varinde uparodaja namaya devada amritam sada sura sarva वृष्टं लोकरध्वयामि तं गुरुवेष्टं नैव लोकरध्वाकैलो यत्रयामि देवे भागं गच्छाम सर्वकार्याप्तं नैव लोकरध्वात्या प्रविदक्ष्यं तव जयफलोत्तन वा अग्रे वर्तन वा य त एव मेम संरथ त्वा कालागते किञ्चिमाक्षत्रे प्रियामेव al tres नुप्रापितत्ताभ्यः पुनः सम्भवितं नाश्म स्वलित्तगौ वेदः पुनः सञ्चिनभलितं दैवात् समजन्मन्त वेदा समजम्बन्तश्चिकस्य ैव भवस्यैकमज्ञस्यैयदयित्याहेवा मादै दिवाद्यस्यैय विदयनं देवाकृत्यैकमज्ञस्यैकदयित्याहृक्षदाने दिवाद्यस्यैय दय्यैर्भवस्यैकमद्यस्यैयदयित्याह पशुमानदाने दिवाग्यश्चैलय पशुमानेव भवैकमज्ञस्यैकदयित्याः सप्तमादृता उपदेवाने दिवाद्य त्रय प्राञ्च त्रयः प्रत्यञ्च आत्मा सप्तमये वै नृत्येव त्रयापतिरज्ञमचिकेशम्प्रतिभ्यं जगेन्न वैयज्ञञ्चमाक्ष्यति सात्मादिक्ष्यमाना विधरिष्य स वाष्यते विगेत्रसावान् करिष्यामि यथा प्राणादि शक्ष्यते माम जापदिस्वासाय कृपया देवलयाञ्जिरद्भ्रुवासी ेन प्राजागतस्मारं भार्यत्रैव जायते तं वधोजनेभ्यावयं प्रजागामः इति तं वधुभ्यत्रागच्छन्त्रेणत्रयत्रगोशतं चार्यत्रैव जायदेतान् रुद्राध्रुवन्त्रयोशमजनेभ्यं वयं प्रजागामः इति क्षत्रायच्छन्द्र कौशलान्यभरस्य नेण सुजलानि तुलं नर्चयत्र गौशलं जलस्पा क्षरहं भार्यप्रेवजाय देतानादित्याद्रुवन्तयो य वजने त्वं वयं प्रजायामः आदित्य क्षत्रायच्छन्द्रं ैव जाय दे न वैदे हास्त्रमगृहन्तोग्यं सहस्रतमेप्नोति युदुसाय क्रियते युधा मच्यते युधा विमुच्यते युसादानाय दैतविषयां श्रेहान् पुनः प्रयुज्यै च भज्ञवाधि ये तव यक्ष्वादि महोतमासं युचुकायाञ्च देवैनां पुनः प्रयुञ्जै तैनायात्रयान्धियोगाग्नियोगागजिं के इन्द्रायष्वज्ञा ये तव इक्ष्वारिते भगवत पायोगित्या हैनवाज्ञेन्द्रियमगस्य नैवैन इञ्जनस्य इञ्जलयितु ब्रह्मवादिना पदन्तिम् यज्ञश्च कव्या प्रतिमया देय दैव माहुयरिंशग्नया तु न माहुदयछं जनाञ्चर्यायुरेव किं प्रतिभ्यै चक्षुरेवमान्याय वा हिरण्यमध्वेजै हिरण्यञ्चर्भामञ्चर्वामम् व्यञ्चयद्धेदर्थमये श्चपया वन्ताज्य लब्ध्यायतामरक्षे दापदत्तयमलब्जद्वितीयम् परापदत्तदतापभवतियम् मेना रो स्वराज्यद्विराजापददाति मेनशदिनदस्याजाय देतावयो वेददा भवन्दिक्ष्य एवम् ेस्यात्मसमायान्तस्य हित्यामञ्ज्यामुपदभ्यादुत्तमायामञ्ज्यागुरये मास्य विक्रमाभ्यामुभयतिगन्धादयं वत्फन्धनप्रत्यवल हैवे कञ्चन प्रत्यवलस्तदैलयो भवति रक्षेपे भवति चित्रं च वाग्यमनदागमन्देद्र वैलक्षवत्मञ्जवागन्मञ्चन दैवते रामस्य ैवायवायजीवयत्वमसिञ्चनभक्ति विद्वान् पृष्ठैव वेदा समक्षायान् धारा गौर्वमेव वर्ग आप क्या करेंगे विश्वजम् माधिराम्ब दिप्तन प्रचोन्तादतो प्रजापये प्रचोन्तादः पादत्वेन देवता ये नाम यत्तान्यपदधापदथा ब्रह्मपादिनौन्द्याध्यमृदयैव प्रथमाश्रयमादन्नाभ्यानो द्वितीयालोकान्या त्रयमाधर्णानुपधाय प्राण नैव प्राणयु समर्धय निज्यन्या तृतीयानुपधाय ज्ञाने नैव ज्ञानम् समर्थयक्ष प्राम्या तृतीयानुपधाया धान्य नैवापाणयु समर्धयक्षाणे देवेन समिं जयत्वयमा धर्णानुपदधाति मे वै लोका त्रयमा दर्णायैताभिः खलु वैर्यापते प्रजापद ्यावते वृत्तयमाधर्मा उप तथा गीमादेव लोकातु मथा गेव लोके प्रजाय प्राणाय ज्ञानाय पानाय वाचय प्राचक्षुषया देवतयान्द्रिय सद्भुवादे राज्ञावेवा सुवर्णम् परिसन्वादकेतायमाधर्माः अपश्यन्ता दिक्षोपादध सर्वदश्चक्षुरासुवर्गम् लोकमायनयच्छदसत्रयमासन्ना भिक्षो परतादिपर्वरस्यक्षुरैव लग्निनायमानस्तु वर्गम् लोकमे याभिवेशयित्याहात्मदेवेन मग्निन्दोलं वेम हरित्याहोज्ञहायित्याह समिन्धेवेन मज्ञपुत्राणि लङ्घमित्याहेवन्द्रियम् तथा स्वामं मामयित्याहमत एवेन सत्याध्यादयां मे रन्यायिकजायत्पत्यं सामाद्येन हि देवानां जिच्छाया दयामानुसर्वदेव रच्यतामित्युपानुत्मा वेदागम् प्रणा रामा वृत्यस्तस्मा इत्यामद्यं निपक्षयित्रामेवावरुन्धे न मन्ममेवावरुन्धे जन्मन् देवानां कृष्पात्याहे लोकान्त्यो यः पदवाचिक्षगानाम् प्रतिष्ठाम् वैलप्प्रत्येवलगाञ्चावालिक्षगानाम् प्रतिष्ठायम् वैलप्प्रत्यै वृष्ठदे यवारेण लोकायकादीयज्ञालयकादिनेयं गो लोकालं असुवान् विनोध्येन सुहर्जान् लोकालं दत्तदायधि किञ्चित्त्वा धर्मयायम् एव नोत्तरवात्र भवता ैरुैरुद्रपुरोध्वासो अनुवादय तस्मै जय रुद्रे नमस्करमेद्रदक्षिणार्थद्वासो अनुवादय तस्मै जय रुद्रवैवक्षरे नमस्करमेत्यै रुद्रभक्तार्थद्वासो अनुवादय तस्मै जय रुद्रे रावत्क्षरे नमस्करमेत्यै रुद्रोक्षराधलक्षद्वासो अनुवादते ैुज्युमत्सरेण नमस्करमेणस्करो नमस्कारेण आपन्त्वा ज्ञैमलतापन्त्वा ज्ञे तपसापन्त्वा ज्ञे देक्षया पन्वाज्ञौ वदभिलापन्त्वा ज्ञे दुःखयापन्त्वा ज्ञक्षणाभिलापन्त्वा ज्ञापन्त्वा ज्ञवजयापन्त्वा ज्ञे प्रजाज्ञा हैषाज्ञैना तृप्तये वेण आप्नोमि प्राणमेवास्तिन्ददाम् पक्षालोचये वृक्षैरुपजे पृष्ठादिश्रिन्ददाय प्रजाभजवानो चेनाय जलज्वारवन्ति यस्य वारवन्ते यत्त्वज्ञश्चैतेनश्चैति अपधनश्चैतस्य चैतत्वं यन्ति भारतश्चैतेन प्रेमानुमेवार्थगच्छाचारया चिना देवदयाज्ञाज्ञैपदधा विलक्षणया ैन्दतयाज्ञाज्ञाविप्रदेशामित्रा देवतयाज्ञाज्ञपदधादया न चन्दता मित्रा वरुणां जानेवत पक्षे नाज्ञ पक्षमुपद क्षमुपञ्च नृपा स्वा मुख्यं लाके भवदेशात् स्वा मुख्यं लाके भवत्यात्म उपधाय आत्मात्मानैवाद्य वि ष्टन्वाक्य भवति एवम् गणता अग्नमुदधया दैषद् युवानामतया नाम रजस्यां तम भूयात्माज्ञो शिलवं जया दैलद् युवानामतया मां रजस्याना च न मस्तस्याना सर्वभयेवं तम भूयाश्च पञ्चवागेदयमुदधि प्रथमादध्वाले ुजेन जगतमाञ्चप्रदयोजता रामाक्षुकर्णयोमश्चे प्रिपन शैर्टेव चनिय का दिवा प्रिपान फॉप्टी यो जर्टू यो अप्षिक ओड़ियो जान च्णोई आप्षिक ओड़ियो ज्यीओ ज्ञो विष्वा दो नावि एर रख्षेल। ैवे समेदितस्यैरुद्रेण्या स्वाविश्व एतेन भूतोन प्रोक्षिषो न प्राचीनम् प्रोक्षदिवत् कञ्चिदमाज्येन प्रोक्षहितेन प्रोतस्य नेण प्रोक्षिः समेते नामाध्यक्ता चैग्णागच्छाधिपय यश्च वाक्ताञ्च यैश्वलक्षिणा वित्तस्याः शैन्द्राधिपयकृताजे नामाधिप्रदेशे व्यक्तस्याः परिष्कृनाम् त्याधिपदर्ये कौण्डिनाम प्रोयदाहुतेन नृयादभर्यं चदिमानं इत्यज्ञाये योक्तेशतः आहुतेय जहौ विभागतये निवेयमानं समयेतिदा शिवार्थसत्यस्य धर्यं मदिमानो वेतिलोनामुत्त्रेणमक्खुलोदाह कृरैलसैलादिमनामुत्त्रेणमक्खुलोदखिनाग्रः शिवार्थमदिवरणो वचिनोनामुत्त्रेणमक्खुस्तान् च् solamente किल सकाम्स टेża श्क्तारशा विद्हाः श्क्तार श्क्तारश ज्या त्मूक्तारश ज्या विल्ले किल boys <laughs> तरे Blohmirt 915 सभेड़ श्क्तारर्शा श्क्तार्ना चाइड़ एम्नres तरक चैने नहींदेर्टेश मेस्तार प्याफि स्क्तार्शाचिर एम्न्न gridens ो वा अन्ये देवा अहता भवान्येता देवो भयान्तेनामृजे भागदेव नैवीनात्यकाव्यदेवा अवता लयित्तलिकामञ्जो च बलिवर्गमेवीनां पञ्चां प्रज्ञातमग्ने लक्षमध्ये उत्सञ्जलक्तमधुमन्त्रमोत्मधुमत्रिशकौतमहमादितत्वा स्वभाज्ञाश्व विमुच्यमानाश्यन्मलाभवत्रैवत्याज्ञाभवम्बलाभवन्धयाज्ञान् विभोत्वार्यैवं व्यधयत्र ेनाधिना दिवतीयाम् भवति न्द्रायलाज्ञ गुरुकरवरुणायगराज्ञष्णयमायलाज्ञैश्वरप्रभागराज्ञराज्ञर्णराजाय मत्कलहक्षिप्रक्षयन च मत्सकारीरम् ग्राकविमत्करा ज्यः पुरुङ्गत्युम्भः शिवंसुमाल हिमवतो हस्ते स्य गोलोहलेशस्य धातुत्तरत्वच्चेदाश्चेताकुलमः प्रवञ्चः अपरान्नस्य मरकुलेकगस्य कोमारस्य वाचे पयीन्द्रराजभटायेषा दुर्विता चाभ्यश्चक्रवाकः ृष्टजगाजयन्तृत्यन्द्रवदे गोधालकालागच्छन् जय गच्छास्त्रियैलक्ष्मी गादेवकः औरेबलाकश्च मयोरक्षेलस्यैकम् धर्वानाम् वसूनाम् कपिञ्चलवरुद्राणाम् चित्तश्रे गोलत्रि गाता अप्तरसामरञ्याय सुमनः स्वदेम् गोक्षद्यान्यवापोष्ठता कस्य वक्ष्मयः पुटरुद्धा चौहस्य मेवार्येष्पुटः शाभोपान्तः प्रयोमान् स्वामित्रः गुरुचक्रमलक्विप्रकाशेषु अज्ञाये ब्रह्मणेक्षोकशभत्रैकजनानामज्ञ मध्यप्रवत्ते पादुलित्रेहम् सदा महेन्द्राय कामाय परस्वाय ज्ञय प्रच्चगेव ऐन्द्रणः कर्मायन्द्रा यावत्सारित्रो स्तो प्राजावत्या तदेव तात्र लोम रक्षो विष्टो वाद सत्यो धात्रे पुजो दस्तो गोव कप्ते स्वां antigenicino devo vidan madvan so la mo sa vistro bhorto rajanahe vishtho devo chango to balu vada kalmada jnaya krishtho yasta svagme hevar nakrttage vidipaste swaha धायस्तावकायुजालोश्चिन्द्रः अज्ञैयागर्भन्तस्तानालक्षग्याना भवन्तोण्डाय मध्ये लक्ष्यावगश्यञ्चनाम् योगास्तावकास्तानालक्ष्यग्रख्याना भवन्तु क्षय्या भवन्ति भवन्तश्च भवन्तल् तत्पादा नावीभवत्समो इन्द्रमोहिता अपकामग्रच्छन्द्रमानाहदेवम् इन्द्रोश्येवेस्तम गोहिरम् एको एको अपेक्षच्छन्दमानायथा वशम् महेत्त्वाद्वयमुच्यते आतो भद्राभृतमिदोपयिताः गमनाः प्राणेन सह लक्ष्यसा गन् आयच्छाम् वितलाशिवाम्यादाम् तस्वारंगमा क्षया यदिवसा स्वाञ्जयक्षयगदत्व प्रयोग्यालम् फलब्रह्मल कथमयद्ब्रह्मक्रहाणाम् ब्रह्मा चेतद्वा ेव लोका महिले नियश्च रायश्चेदात्मकं चापोमाज्ञातं यायज्ञातं या ये भवत्यात्मना ब्दागव्याफलक्षमधं वा आपत्रि नाक्षिसर्वमायुयत्रेता उपधीयन् जयौ चैना देवं वेनापादः प्रशमाजियत्रेता उपधीयन् जयौ चैना देवं वे तद्वादशफलं जग्वादसमाधां वत्तरे नैनात्मा णि भवन्ति पात्रे वा अन्नमज्येदयान्यवान्यं सात् पुरुषादन्नमज्य भवयस्यैका उपधीयन्ते योजैन एवं वेदकुम्भाश्च कुम्भेश्च मिथुनानि भवन्ति मिथुनश्च प्रजा तेत्र प्रजया मधुरन् मिथुनैत्यानि देयस्यैका उपधीयन्ते योजेन एवं वेदजुग् ुचार्पयुपदभायता उपधीयन् चेपा गेता यदयालिगेता आपोता अबभवदभापर्य्या भवनिगामागेता सामायुध्यं वेदायुगमान् भव स्वादधात्यञ्जेधायस्मै बन्ध्वन्या उपदधाय मध्ये दृक्ष्यान्नमेवा स्वान्नवरुन्दे मध्य नौपदधाय मध्यत एव स्वान्नन्दकायि स्वानाम् ्रह्मवेदेवानाङ्ग्रह्म नैवात्मावच्च भवद्ब्रह्मवत्याहेद् ब्रह्मवत्रिगच्छेदौ यौ जैनमेवम् लता चत्रा मृत्य यत्रैव मृत्ये शत एव देवस्मागं जयत्सर्वमायुरेण यस्य मृत्यो प्रत्यगेन भूयदेवाघेदया वेताय हवे भवन्त्येतावन्त agar la teen saman teen ke liye naya roz banne त्यादयेव hmm. आफ्चा मिच्चा इचा इचा इचा इचा आफन ेनैवेन अभिञ्जय बृहस्त्राज्येनाभिञ्जामे ब्रह्मै देवानां बृहस्पदे ब्रह्मदेवेन अभिरुञ्जकेन्द्रस्य राज्येनाभिञ्जामेन्द्रियमेवास्मिन् उपयुक्ताक्षेत्रै राजतो यश्च लोकं च एवं विद्वाञ्चलभाव लोकामभिले यश्च राजसो यच्छालेन्द्रस्य सुगमाणस्य दृशेन्द्रियम् वेद्यम् पदा पुनत्तसौहोत्रामन्यापमहरम् सूर्यदेवावेशया किञ्चिदुभे किञ्चित् रामन्याभेयन्द्रियमेव वेद्यम् संसृत्या तजो लब्धजोषा रुणे भृत्तर्यगेतजेन फलो स्वाभिक्तजो नुषाणेशोर्यगेत भगिने अष्टिना संवत्फलोले संवत्परं भजवानप्रजायं चेदं नैवात्मैभवन्गत्रामृज्वेर्यं तद्वर्थाञ्जभाजायवे भवजत्रैव जगपत्यक्षुरेव पुरस्तात् भगवति एवं वेदा भो माय राज्ञमाधेत्र प्रजापरि पुष्कर मन्दे मातो भूतो लैलाय तथायमपश्यत्तस्मिन्नमशिरमभवत्र गोमेह प्रचलित भगवत्ता प्राहेदिभ्याम् दक्षिणत उपादधात् प्रदक्षिणः कक्षा भगवत्ता दक्षिणादिज्ञानम् ुपादधा च कृच्छमभवत्ता प्रजे शेलिभ्याम पुत्रपादधाश्च उत्तरः पक्षम भवत्रे जेलिभ्याम वलिष्टानुपादधाश्च प्रथम भवत्वा भालियम् राज्ञकल्यक्षणम् प्रञ्जन्त्यभिषत्कराजम् सर्वम् इमाम् प्रजागुञ्जनक्तम् जगच्छय सर्वाच्च अकृत्वा नैव तद्गोनिम् प्रविशन्ति ख्यम् भृत्वा ज्ञैमस्ताकपालम् जन्म वैलैन्द्रमेकादशगपालम् वैश्वरेव जगपालम् चञ्चलम् वैष्ठवन्त्रिकपालम् कृतेवत्सरे जगदपाल भवत्यट्टाक्षरागायत्या ज्ञय गङ्गायत्रम् प्रादत्तम् प्रादत्तनेन राधायणायत्रेन चन्द्रमय एकाद जगमान भवत्येकाददाक्षरा तृप् माध्यञ्जन गौपनं माध्यञ्जनमेव भवनन्देन गौरिद्वार जगमान भवति द्वारदाक्रराजकेभीष्वदेवं जागदं गृहे भवनन्द्रीयभवनमेव तेन दाधा जगजेभवं स्वं भैव तेन दासा येत्कपाल भवति यज्ञ यज्ञमेव तेन दाधारिगद्वीये संवत्फले भीता किल तेभ्यसंवत्फलमुख्यं जिवजीवमेव तेन गोर्गद्विक्रोये संवत्सरे ेवलेन प्रणोदयत्रिवीलेनानः कक्षे वागुम् औषधम् प्रायत्र सहस्रकम् सहस्रम् पुत्राणविन्द्रमात्मनो दिभां च कक्षदिक एवं विद्वामे प्रजापतिलग्णं चालयित्वा पाणिं सत्कं सदान्तं सप्तं ब्रह्मेन्दुं जम्पनय कृष्णाधिलं चापानः उपमं च पाणिं चालयित्वारञ्जे जानात्क्रामस्यात्मानमेव आत्मानमविदध्याङ्क्रम्यापदधा असौविधानादेशे गौरभायेव तत्प्रजापर्वा असर्वाग्र ष्टकाभ्यगो वाचेन्द्रभिरधिकजस्तकाभिरग्निभास्वानमेवाग्लाचिग एवं वेदलीरं नागे विगत्य च आत्मा वैश्वानरा ये स्वानरं जहो विकलीरमेव अम्मा कृत्याभ्यारो लगकृत्यात्मनाभ्यां जीवन्नेव देवाल्यैवेश्वाल्यच्चापुले लवधाग्रवैरे स्वानस्तत्रे जालयु स्वानरञ्चलय अग्ने वै देक्षया देव विराजमा कुवन्त्रेष्कृपदा विराज्याजमात्मो विरग्रात्रेष्कृवत्फलस्त्वं वत्फलो विराजमात्मो विदधात्रे त्या द्वादसमासां मत्सरोम त्रयोदश त्रयोद समासात्वं मत्समात्म पञ्चदनात्रे जगत्या पञ्चदना समाज त्रयो समास ्या गिराजमाप्नोतिभक्तद राष्ट्रे श्रे कृदस्याद्वादशसमाधात् पञ्च तव प्रसंवत्सरस्तं वत्सरविरा जिराजमाप्नोति सुविघोषिगौरात्रे जयकृदस्यात्सरविना गिराजमाप्नोदिकंशदौरात्रे जयकृदस्या सत्यस्य ज्योमालोकतमं मत्तःस्वं मत्तःवरो विराजते अलवाः कौजसरो भासो देवे गद्यस्य सदोमाहेनम भावावदवा विभवते कृणिमारयन्तः एत्रेयन् कन्दोस्तु रुद्रास्ते हेतसे कमोजिन् तुश्वन्दनं धारयति च ते जोहरिन् देविन् नन्दस्तवोविते अभ्या ेन समासा संवर्तं व्यस्य च सत्याह राष्टाष्टगमेन च मते भवादेव here and there नो हि लुथिवेमाश्रमिदं राणामाहाभेदं दरिक्षमाक्रमिदं प्रजामाहाभेद्यमाक्रमिदकुं सुवरगण्ये चा हैभवाग्नेवारोहत्र नैव मन्मारोहरिसुवर्गस्य लोकस्य तमश्चेयत्पक्षतं मिलाम्ययात्तमेरागङ्ग् ैः स्वापीयश्चात्मनः प्रजास्याद्य संविधान्या विद्यायासं तमेव यज्ञ प्रथमतैलिराश्चात्मनः स्वापीयते प्रजा भवति सहस्रं जन्वेदप्रथमं जन्वाणसहस्रसंवितो वाय दि द्विसाहस्रं लयविखिता हस्त्रं जिं वेदञ्जिम्बालिता हस्त्रो वा हो लोको नैव लोकमभिलयविजानुगत्यं जिं वेदप्रथमं जिम्बानो गायत्रे मन्दाकमभ्यालो हरिदाभिलग्धन् वेदाभ्येरञ्जनपालश्चक्रभैवान्दरिक्रमभ्याल हरिक्रीमलग्जन् वेदधेयं जन् पालो यैवा मन्दाकमभ्यारो हतिनाग्नित्वा राम वैयादयो नो धाक्षादेघेयञ्चित्वा चक्रियमुयञ्चित्वाकाञ्छौ वैरियदं निध्य ेतभाव्यभ्यं वा ये स्वाभियाचन्दायक्षे निवावयता पुत्रः पौत्रे दृष्टितापदध्यापदधायम् वा वाग्वार्यन्तम् पश्यं दिवा जलं देवन्तरे क्षणं कृतीयाक्षं तस्मान्नान्तरे क्षम्पश्यं दिनप्राणमसौ कृवासौ तस्मात् पश्यन्तं पश्यं दिनक्षुर्गे मध्यमा यज्ञा प्रयुजनादेष्टस्य वेदस्य जने समये च हत्रभक्ते देवैकेन चिद्याः पदानुलक्षामाविश्वेतानेभ्यपरिदानप्रमुंस निश्चा हैतद्वा अग्ने शिक्षा ध्वन्य्याख्युद्यामुखं शिक्ष्यं भवति लोगार्ष आत्मादृक्षामात्मन्यैलेयं विभस्य प्रजापदर्वा येन लजस्तोषा चो लोखलञ्च सलोकाभत्य प्रजामुखदेवं दे दुःखाञ्चो लोखलञ्च पदधाय मां लोकेभ्यन्दुरेवं मत्फलोमाय नैलज्जत्स ेधा प्राजाभक्त्या वैश्वजाभक्त्या दुःख्यं विभक्ति प्राजाभक्त्या हेमदुभत्यै यस्वमिधाय वैष्टवादेव नया वैष्णवे हेमदुभधत्यैष्टगाभे अर्जुण्ठिनं वै विश्वकर्मा वैश्वकर्मयै हेमदुपधत्यै तस्मादा लभ्यलक्षिणम् मानमानयजम्बेरयस्यान्यश्च निजाम् लक्षिणाभिर्मलाभये लज्यमस्तव्येभ्याद्य निजा तम् दक्षिणाभे लाभये भज्यमेव प्रमाये प्रजापते अग्निमजलत्त्वहितं वत्परं वसन्ते दैवास्तकोर्वाजनदग्ने न दक्षिणम् पक्षं मरुषाभिः पुच्छगुं सर्वं कक्षगुं हेमन्त्रेण मध्यम् ब्रह्मणावाहस्तोेन दक्षिणम् पक्षं मरुहृत्पुच्छं विषमर्थं पक्षमादृगामध्यं विद्वानेव क्षत्रा जगुरे यज्ञश्चे दक्षिणापुरे जं जयमानः पञ्चमे प्रजापदेकञ्च यज्ञं दक्षिणामात्मानं प्रजामन्तरिहाय ज्ञणोय कृप्रदयपुरक्षलयद्वय जीवादिजवान प्रयच्छतया भवन्ति वात्मानेवणौ पञ्चशितया भवन्ति पञ्चभिः पुरे जैरभ्यो हेतसं पुरुषो यावादेव पुरुषप्रज्ञणात्यक्षा विनाज्याद्यना जयफलिक्ष च्चिद भवन्ति स्वादशतम् पद्यम् जय स्वादसमाधाम्बत्सरस्फलेन प्रतिगच्छे ौ लरोहिरक्षत्कन्द्रोहिरक्षेत्रायासत्या भवदेवत्याष्णावशा वारुण्यश्चेदाभारौर्ये लायत्वत्या भूमृष्टोपदाः प्रत्यक्षेण वस्त्यो फलस्य मारुप्रजले छोलवटवे शब्दवटदेशाय भजामै श्रिया इन्द्राजस्त्व श्रीवाहुरञ्जनस्य देवाहुत्तमन्त शिवाहुष्टयैन्द्रवायवा शिरम् सञ्जनस्य दिनम् सप्तमन्त्रिविरम् सत्यमे रामनात् शुद्धबालः सर्वशुद्धबाल मणिबालता चित्तस्य चित्तस्य श्यामलरामास्तु बलाः उन्नतभोदामणत्तयेन्द्राम श्री श्रीविष्णी भदत्तयेन्द्रामाय प्रत्याश्रीराक्षि चौष्टि विभक्तयेन्द्रामे कर्मण्यश्चित्वभाष्यप्ररोधरायै namastoravasaumya prakringaja jayarishvara sayana padar cittaghesta vyastarasunam bistarana nitya chatarutara sundo mein sabha pravas tu braha शुद्धात्वयो वेष्टवाभित्वयो वृत्तमवक्रमाय प्रयो वृत्तमवराजाय पञ्चादे स्त्रिफलायत्याहन्तोपला इन्द्राय राज्ञे त्रयश्रिवृक्षा इन्द्राय जराजायत्रय श्रीगुलिङ्गाय स्वराज्ञेत्र श्रीबलच्चस्तुलिखाभ्यानाम् कृतपथौ च विश्वेनाम् देवानामा जेन्द्राकृष्णमास्तोपरा अनिष्ठे त्रयो लोहितायुन्द्रान्ये त्रयकृष्णैता कृपये त्रयो नैकाले त्रयो नीवाजा त्रयमायराज्ञैत्रयारङ्गा विश्रोया मधुरायु विश्रमैना त्रयः कृच्छा मामलनाय राज्ञेत्रयो मावलनाय विलासभत्रयो प्रवला वैश्व कर्मदे भक्त्या ऐन्द्राधोरामास्तु सोमायप्राज्ञे नो गाः वैद्रा इन्द्राज्ञामो दामुन्द्राज्ञां वरदाेन ओमि लैलाये गृहेतेनो भूमे भारवारोहनावावम महाउवा लेत सर्वदे अलाज्यो विद्यादभोय महो एकादशप्राशद्गव्या पदमालभ्यन्ते तद्विशेषा सौरेण नमश्लेतावसा अनुभव्याश्रस्य पिता योग आलभ्यन्ते किं तां शास्त्रवागम ताः शास्त्रोग्रेयः शास्त्रं तस्य आहिरा विशिष्टस्य सरकारा विशिष्टां शास्त्रो हेमन्दिनावरता प्रस्तेदिदारसं वत्तराय निवक्षता ेव्याविष्टदे भवतायधादेव प्रथमाञ्चलि जगत्यां यामृष्टभापञ्चमे वदमेवाज्ञं चेवाजिना पशुभेन प्रजापदयप्रदेप्राच्याज्ञञ्च न जनार्ति वा दक्षे लभ्यका उपलभ्या एतद्वये प्रजापदय लोकम् प्राजापत्य श्वस्ताक्षादेव प्रजापदय परिप्राक्षाक्षिञ्चिनो जनाक्षिमाक्षेतद्वा अन्ना लोकं यक्षयतो स्वरात्रे कृष्ण एतदम् न लोकं याया श्रीरक्षकामुपधार्च्यम् क्षेतमक्षमविमुपधार्थम् कृष्णमहोदाश्रा त्यादेशिन्द्रेशप्रजापयत्राभ्य स्वमेव साक्षादिपञ्चेपि दानम् पुनर् युवानञ्जनयन्मसागरा अर्थो य मार्गायत्या प्राजापत्यामेकामवध्राचीलम् एवलेकया वरुन्दये प्रजापदे रक्षामधातमानामस्त्युन्दोचन्दोरि हे आर्यो वयमनमना सत्येन वेदिमानः पक्ते वदाय यत् लोकाधिपतेन यस्येन देवाः जो विश्वोत्साह उदगनेते सम्मतले जगतः कार्यं इता उपसत्ये वा सत्यास्तु अग्रस्तं रक्ष समच्छेदतादिना च सर्वे येन इय्यात् तौ तस्य भातिताहे न्तः <Sessimus> सर्व <Sessimus> ते रामदُونَ आगम सदसारेनां दिव्यतरे रामोऽस्यमा जीववत्सलाय परिमत्तरागभं मत्सलाय नमो नमः तेहां मलयो सुमतो यज्ञानां जो परिसाहना क्षमा दन्त्यां नश्ते समने कदेभासपर्यवशे नमो जे महेश्वरा केशायता देवप्रयुजति नैवीयते ब्रह्मपादिना वदन्ते रमाता माता ेवता उदयुलभ्या सर्वदेष्टे समयेष्टदेभुराज्यायमानस्यामया भावाया इन्ना गराजो बहत कृप्त लोभा रूप पद असा सो रूप पद खा मखि रूप पच्चार सलो भाय हिना हते न गुन्तो आत्मन अदितो देवाविष्पायन्तेष्पेक्षोपे पुनः शुणेवार्यभिलाचलम् ब्रह्मवादिनवदं न देवतायेषु पक्षयुक्त्या चै स्य जिवादनोत् धाराय प्रचस्थां प्रत्येव प्रा्यद्वये फलवाग्यप्रिया लोके कृत्यं जोग् ैनं च ज्ञानं भाजय भाटा देवता एनावम्भे त्याखमानपदे <gasmusi> सप्तदे <gasmo một> जाता नैवान् ते सप्ते नामवादिनावं ते देशकालवत्यक्षीयते सप्पादित्य यम् एव प्रमाणाः उत्तमश्लाश्चेतवः क्षत्रम् परमो च जातम् चेवा स्वभा चेदावा त्मभुतमेवाचेनाग्ने स्त्रिरान्दार्धामेव भवतिमात्माद्रार्थम् जगुंसते यथा मे पुत्रिक्षाय त्रिगञ्जम् मन्त्रम् एव ृद्राल मृत्युस्तमः कृष्णं राजकृष्णाधेन चक्षिणाथमदैवतमो मृत्यो महदे हिरण्यन्द्रिद्यो जगुवै हिरन्यञ्जो महदे भुवने गो वै हिरन्यञ्जेदेव वर्णधर्मस्वासु वर्णनास्व हातु वर्णज्यो यत्सातु वर्णयो च काश्च मेधया रेवं मिलन्तधा अश्चाश्च मेधेय क्षत्रामुपाधियवत्तं विश्वकर्मा प्रभेतुमक्त्वा यामेत्यग्रहे स लेतान् विधीनान्मवक्षत्रामुपाध्रभगवत्त प्रजापरिमप्रभेतुभक्त्वा यामि दिनेपेत्यग्रहे स विश्वकर्मा नग्रहेतुमक्त्वा यामे पैशित्याभिरित्यब्दे सन्दित्याभिरुपयेत् भावुपादत्ततायानि विनेहलोपात्यग्रजे सविश्वब्दो भादुचयेत् तिमपश्यक्तामुपाधस्तकप्रजापतिमब्लभेतुभक्त्रा जानेतु नेहलोक स्ते चब्रजे प्रिशकर्माणि प्रभेतुभवामा जानेतु नेहलोक स्थ्ये चब्रोढातुं समये किमब्लेतुभक्त्रा जानेतु के नमोपयुष्यति च लोकं प्रणयेच्छब्द्रजे संवादं प्रणयो हये राम नेलोकं पणायादना भास्य जनवाचित सामगया स्वन्नवव आगामे तकेन उपरेकते भोम नेचत वन्दान वाचान छिए प्रवदन स्वन्जदिये कतम पद्यन एवम विस्मान्यिन् चते भोया नेलोक छविमान सुधाकाञ्जे दिविदलनु देवा अहो I am young and petty. पक्षिणा पश्चात्प्रागुवचलम्पति विजय निर्द्रोगम्ये चान्तरिक्षं यच्छान्तरिवारिवर्बन् मे सजिवं यक्षिवो माये चायता दर्वाणि मे लोकाविधार्येता उपधा चेता लोकानामि त्वयमाधन्ना उपधारियण्ये क्षणा उपधारिणे मे लोका त्रयमाधन्ना ज्योतिर्ये यत् स्वयमाधन्ना उपधारियण्ये ेताभिोकाप्रभामाधन्वन्दिरस्पृ साभिस्तनायनस्पृहे या गोदे वा ्राह्मणे राजसुलक्ति द्यम् चित्रैत इन्द्रियम् गच्छत् कज्यम् वा द्रवीदानम् ृक्षरात्मना हरितै भावे हवितं यत्येव धाय कल्पमानवेत् प्रत्यवृन्दशिलाक्षेत्वा दक्षिणप्रक्षं दलेभ्यं कोचभक्षास्थितवरपक्षात् पुरे राष्ट्रामे भक्तण्ठमा य <laughs> पुराणाः एत एव गुणतरा स्थापलेयते देव महामहात्म्ये महिं गा तदरेणा संबावन्ताय एवदर्भा अस्माकं ज्ञप्सायने तवहने विद्यामन्य भाणेतोजेवं भरणे विद्यामन देवा स्थाष्ट्र विद्रूपमस्याः एरावत्तः पदवत्य भगाने रस्ता होतै गुणान् आग्यस्मि अम्बे प्रतोन्मसुमध्ये मे भगन्तै्यदाप्तय्या च दक्षिणा त्वं वेनाग् धनं तेन मयवद्दैव दक्षिणा युक्ता यज्ञं वहन् कृष्पिता तेनैव यज्ञं न भागवद्दैव यामि प्रजानन् <proport�> ज्ञ किम्बा हैश्च प्रियदेशङ्करया प्रयञ्जते प्रजानन् प्रजानन्दत्या ब्रह्मलमित्तरेनानि ब्रह्मनावे देवाजं ल्रह्मन्दक्यमधान्रह्मदेव रक्ष मानत्व प्रजापथर्मायणेन च प्रजापथवक्षन्नागुजो सर्वासं प्रजान्मतो प्रजाध्ययने मनोभ्रक्षम् त्यागम् आदिवेशात् समाप्तम् परि गन्धे महे वयम् वागम् अस्माकम् अभायव त्यात्मन्यैव ब्रह्मवाजना वदन्ति देवतान्मता प्रोड स्वार्प सार्प्यis Yipka試िती वांगे तैन्मकु ऊ नाथनी आर हो दोगिम्प के आर ऐ स्वार्प स्वार्प chopूरेवाई तक्नले फिकर स्वार्प हो दोगिम्पा homework जोगिम्पन ऐनो दोगिम्पा networking जोगिम्पा प्रोड स्वार्प हो दोगिम्प दोगिम्पन क ज्ञिं सर्वदा सर्वासु प्रजासन्न जगते प्रच्छादुभमुच्छादः पङ्क्तिम् अध्यय सर्वदाप्तय एवं विद्वाप्तिभते सर्वासु प्रजासन्नमध्यपादिष्ट I'm uh out. -huh. भक्तत्मा अष्टं प्रत्या शत्रदक्षिणावश्चवस्तरत्माय रवं गत्यापुरङ्ग्यावस्तरमत्यै भक्तं गत्याः शत्रवोद्रभक्तत्वे पुरुषं दत्याः शक्षत्पुजे रायवदेव नैव नहिं हे प्राण लखत के रष्ट कालस परु बेर जानय पु बेर जानय वरधा जिता हे वैचना अग्लयङ्काले कली भवत्यान्नस्यादिनं भवयङ्कामजयक समावहस्यां श्यादिमध्यस्त ्यान्नम् भवति कावे भूय चान्न सत्यब्दध्यालन्भदेव भोयस्याम् भवति क्षाभ्याम् जगुम् जगु सूलेनकलात्कलामुत्थामेलक्रन्देन भ्याम् यज्ञ लोकनानकाद्यामजनम् मत्केन बलम् लज्जभिञ्जलान्तामपुष्ठिकाङ्गाभयञ्जानुभ्याम् जेयम् भयम् प्रजानाम् ्याम् कोधाकाशे हस्तम्पराकाशे कान्तम् लजस्तकुविधागेन कृतावर्णेन ध्यानिन्दाध्यानिन्द्रामलक्प्यालिन्दायप्नो हेल्यानुवितानुर्वाणेन पुत्रा चक्रव निश्चे पायस्यन्दिनान् चक्रवो देवो नाभ्यामन्तरिक्षम् पुरिकताम् प्रत्मनः वक्त्वा वैश्वानरेश्वर उद्दालप्त्वान् प्रणेदोनक्केतिवं रक्षे नदोनां प्रथमाके कथा उद्ज्ञानां श्रीगा विद्यानां श्रीहाय्यसं प्रतीता क्षमामृजवेष्टेदान् देवा नरुण सत्ते ओलो भ्याम् सुजिनम् प्रदाना Mabundayana, Chengi, Tata, Poyoke, Gita, Kuta, Jena, Shya, Mabagadu, Kekadu, Kravda, Kuskabitra, Kwaan, Kivakundu, Kena, Naksatay, Pajajwa, Kwaan, Pajimik, Jalmala, Kapin, Shantyo, Makar, Zagatpa, Zagatpa, Zagatpa, Zagatpa, Zagatpa. ै पक्षीयाम् परिणमीनम् वक्ते वरुणाकम् सप्तमे निरामे अष्टमे निश्च वरुणत्रैकादृष्टे पार्श्वमश्च क्षलितफलप्रलोक्षलप्रतिरिक्षत्राणामितर्थेण विलक्षञ्जने विरक्षे तानाम् वक्तव्यवमे धावेन धान्याये धारे चेत् जनाः पार्श्वल्यम् चैवारोढः धेन वयागुण् न्द्रमात्र <laughs> <laughs> असुराभे केना इदम् च एवम् नागमजयज्ञम् नगस्तते लोकस्तञ्च यच्छतायः प्रसुराभेत् केना इदम् तपगेदम् नाकमज यद्यत्यम् मागस्त लोकस्तहित्य इदम् पञ्चमकाण्डप्रभाप्तः षष्ठकाण्डप्रारम्भः ये ेव मनुष्यादिवालक्षाधिके मनुष्याय प्राचीनवं शङ्करोति देव लोकमेव लोकमनुष्ठलोकान्नात्मान् लोकाक्षैव्यवेत्य भक्तो हितद्वैवेद्य कृपया लोकया लभये चाय च मृता मे वत्पे संज्ञा ते प्रायं हस्तु स्नादिधाक्षादेव अवलुण्ठयते चेत् स्नादिकेच्छां प्रालेदयन्ते स्नादिके त्वमे sa meva devatamu priya so aadhinam लौक्यगिगो वर्गं मनश्च आन्त नातुना चित्तया हलवेत